श्रीहरये नमः अथ सप्तविंशोऽध्यायः श्रीशुक उवाच गोवर्धने धृते शैले आशारात् रक्षिते व्रजे गोलाकाता व्रजत् कृष्णं सुरभिश्चक्रये वचा विविक्त उपसङ्गम्यव्रीटितकृतखेलनः पस्पर्शपाथयो एनं किरीटेन अर्कवर्चसा दृष्टश्रुतानुभावोऽस्य कृष्णस्य अमिततेजसः नष्टप्रिलोके समद इन्द्र आहकृताञ्जलिः इन्द्र उवाच विशुद्धशत्वं तमदामशान्तं तपोमयं ध्वस्तरजस्तमस्कं मायामयोऽयं गुणसम्प्रवाहो न विते ग्रहणाबंध कू तथ्येतवीश तत्ता लोभात ये बुधलिंग भावा तथा दंडम भगवान्बिपर्ती धर्म से गुप्तल्रहाय पिता गुरस्वता दुरत्य यत्कालमुपातदण्डः हिताय स्वेच्छा तनुभिस्समीहसे मानं विदुन्वन् जगतीशमानिनाम् ये मद्विदाज्ञा जगती समानिन स्त्वां वीक्ष्यकाले भयमासु तन्मधं हि त्वार्यमार्गं प्रभजन्त्यपस्मया ईहाकलानामपि ममैश्वर्यमधप्लुतस्य कृदाघसस्ते विदुषः प्रभावं क्षन्तुं प्रभोतार्हसि मोढचेतसो मैवं पुनर्भून्मतिरीसमे सति तवावतारो यमदोक्ष जेह स्वयंभराणाम् उरुभारजन्मनां समुपतीनामभवाय देव भवाय युष्मश्चरणानुवर्तिनां नमस्तुभ्यं भगवते पुरुषाय महात्मने वासुदेवाय कृष्णाय सात्वतां पतये नमः स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः मये तं भगवन् गोष्ठनासाय आशारवायुभिः चेष्टितं विकथे यज्ञे मानिना तीव्रमन्युना त्वयेषानुगृहीतोऽस्मे ध्वस्तम्भो वृधोत्यमः ईश्वरं गुरु आत्मानं त्वामहं शरणं गतः श्रीशुकौ वाचा एवं सङ्कीर्तितः कृष्णो मघोना भगवानमुं श्रीभगवानुवाचा मया ते कारि मघवन्मगभङ्गोऽनुगृह्णत मदनुस्मृतये नित्यं मत्तस्केन्द्रश्रिया भृशं मामैश्वर्य दण्डपाणिं न पश्यति तं भ्रंशयामि सम्भद्भ्यो यश्च चेष्टाम्यनुग्रहं गम्यतां शक्रपद्रं व क्रियतामेऽनुशासनं स्थीयतां स्वाधिकारेषु युक्तैर्वस्थम्बवर्जितैः अतागसुरपि कृष्णम् अभिवन्द्यमनस्विनी स्वसन्ताने उपामन्त्र्य गोपरूपिणमीश्वरं सुरभिरुवाच कृष्णकृष्णमहायोगिन् विश्वात्मन् विश्वसम्भव भवता लोकनाथेन सा नाथा वयमच्युता त्वं नः परमखं दैवं त्वं न इन्द्रो जगत्पते भवाय भवगो विभ्रदेवानाङ्गे च साधवः इन्द्रं न स्त्वाभिषेक्ष्यामो ब्रह्मणा नोदिता वयम् अवतीर्णोऽसि विश्वात्मन् भूमेर्भारापनुत्तये श्रीसुकौ वाचा एवं कृष्णम् उपामन्त्र्य सुरभिः पयसात्मनः जलै आकाशगङ्गाया ऐरावतकरोद्धृतैः इन्द्रः सुरर्षिभिक्साकं नोतितो देवमातृभिः अप्यषिञ्च तदासार्हं गोविन्त तत्र आगतास्तुम्बुरुनारदा तयो गन्धर्वविद्यातरसिद्धचारणाः जगुर्यसो लोकमलापहं हरे सुराङ्गना सन्नर्मुधान्विताः तं तुष्टुबुर्देवनिकायकेतवो व्यवाकिरन्यश्चाद्भुतपुष्पवृष्टिभिः लोकापरां निर्वृतिमाप्नुवंस्त्रयो गावस्तधाधा गामनयन्बयो धृता नानारसौ गिरयोभिभ्रतुन्मणीन् कृष्णेभिषिक्तयेतानि सत्वानि कुरु नन्दनान् निर्वैराण्यभवन्स्तात क्रूराण्यपि निसर्गतः गो गोकुलपतिं गोविन्दम् अभिषिच्य सहा अनुज्ञातो ययौ शक्रो वृतो देवातिभिर्दिवम् इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्ते इन्द्रस्तुतिर्नाम सप्तविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमगराज्की जयी